अथ द्विपञ्चाशदधिकशततमोऽध्यायः वैशम्पायन उवाच तां विदित्वा चिरगतां हिडिम्बो रक्षसेश्वरः लोहिताक्षो महाबाहु ऊर्ध्वकेशो महाननः मेघसङ्घातवर्ष्मा च तीक्ष्णदं श्रोभयानकः तमापतन्तं दृष्ट्वैव तथा किडिम्बोवाच वित्रस्त भीमसेनमिदं वचः आपतत्येष दुष्टात्मा सङ्क्रुद्धपुरुषादकः साहं त्वां भ्रातृभिः सार्धं तथा कुरु अहं कामगमावीरा रक्षो बलसमन्विता आरुहे मां मम श्रोणिं नेष्यामि विहायसा प्रबोधयैतान् संसुक्तान् मातरं च परन्तप सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा भीम उवाच मैयस्व पृथुशुश्रोणी नैष कशिन्मयि स्थित अहमेनम हनयामी प्रेक्ष मध्य मे